श्रीमद्भागवत् महापुराणं दशमस्कन्धम् अथ पञ्चषष्टितमोऽध्यायः श्रीबलराम्दीका व्रजिगमन् श्रीशोकुवाच बलभद्र कुरु श्रेष्ठ भगवान् रथमाश्रितः सुहृद्वक्षुरुत्कण्ठ प्रयो नन्दगोकुलं परिष्वक्त स्थिरोत्कण्ठैर्गोपयो गोपीभिरेव च रामोऽभिवाद्य पितरावासिर्भिरभिनन्दितः चिरं न पाहिलासार्हशानजो जगदीश्वरः इत्यारोप्यां कमालिङ्ग्यनेत्रैः सिशिचतुर्जलैः गोपवृद्धां च विधवतिं यविष्ठैरभिवन्दितः यथा वयो यथा सख्यं यथा सम्बन्धमात्मनः समुपेत्याथ गोपालान् हास्यहस्तगृहादिभिः विश्रान्तं सुखमासीनम् त्रिपक्षोपर्युपागताः पृष्टाश्चानामयम् श्वेषु प्रेमगद्गदया गिरा कृष्णे कमलपत्राक्षे सन्न्यस्ताखल राधस कश्चिन्नो बान्धवा राम सर्वे कुशलमासते कस्य स्मरश नो रामजोऽयं दारसुतान्विताः दृष्ट्या कंसो हत पापो दृष्ट्या मुक्ता सुहृज्जनाः निहत्य निर्जित्य निपून दृष्ट्या दुर्गं समाश्रिताः गोप्यो हसन्त्यप्रक्षो रामसन्दर्शनादृताः कस्यदास्ते सुखं कृष्णपुरस्त्रे जनवल्लभा यस्य स्मरति वा बन्धुन् पितरं मातरं च अभ्यसौ मातरम् द्रष्टुं सगद्व्यागमिष्यति अपि वा स्मरतेऽस्माकम् अनुसेवां महाभुज मातरम् पितरम् भ्रातृन् पति न पुत्रान् स्वशिसृरपि यदर्थे जहिमदाशार्हदुस्तजास्वजनान् प्रभो तान् सद्य परित्यज्य गतसञ्चन्यसौहृदः कथम् नो ताजिसन्त्रेभेर्ण श्रद्धीयेत भाषितम् कथम् नु गृह्णन्त्यनवस्थितात्मनो वच कृतघ्नस्य बुधा पुरस्त्रियः गृह्णन्ति वै चित्रकथस्य सुन्दरस्मितावलोको श्वसित स्मराचुराः किं न स्कन्नन्तन् कथया गोप्यकथाकथयतापराः यास्तिं स्म्याम्येभ्य विना कालो यदि तस्य तथैव न इति प्रहृतं सौरे जल्पितं चारीक्षितं गतिं प्रेम परिस्पृङ्गं स्मरन्त्यो रुरुश्रियः शङ्कर्षणस्ताकृष्णस्य सन्देशैः हृदि अङ्गमैः सान्तयामास भगवान्नानुनयनो कोविदः द्वौ मासौ तत् चावासिन्मधुमाधौमेव च रामचपास भगवान् गोपीनां रतिमा वहन् पूर्णचन्द्रकलामृष्टे कौमुदी गन्धवायुनां यमुनोपवने रे मे सेविते श्रीगुणे वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् पतन्ते तद्वनं सर्वं स्वगन्धेनाद्यव संवासयत् तं गन्धं मधुधाराया वायुनोपहृतं बलः आघ्रायोपगतस्तत्र ललनाभि समं पपौ उपगीयमानचरितो वनितार्भिर्हलायुध वने सुरक्षीवो मधु विवललोचनः श्रव्येककुण्डलो मत्तो वैजयन्त्या च मालया बिभ्रति स्मृतमुखाम् भोजम् भूषितं, स आजुहावयमुनाम् जलक्रीडार्थमीश्वरः निजम् वाक्यमनादित्य मत्येत्यापगाम्बलः अनागताम् फलाग्रेण कुपितो विचकर्षः पापे त्वम् मामवज्ञाय यन्नायासि मया देशे त्वां लाङ्गलाग्रेण सतथा कामचारिणीम् एवं निर्भस्यताभीता यमुनायजनन्दनम् उचचकिता वाचं पतितापादयो महाबाहो न जाने तौ विक्रमं यस्यैकान्सेन विद्रुता जगति जगतः पते परं भगवतो भगवन् मां मोक्तुर्मर्हसि विस्वात्मन् प्रपन्नां भक्तवश्चल ततो विमुञ्चदीं यमुनां याचितो भगवान् बलह। विजगाह जलं श्रीभिकरेणुभिभराट् कामं विहृत्य सलिलाद्णायासिताम्बरे भूषणाली महार्हाळी ददौ कान्तिभुजासुजं वसित्वा वासी नीले माला मामूच द्वे जे सुलङ्कृतो लिप्तो माहेन्द्रयुवारणः अद्यापि दृश्यते राजन् यमुना पृष्ठवर्त्मनाम् बलस्यानन्तवीर्यस्य वीर्यम् सूचयति विहि एवम् सर्वानुशा जाता एकैव रमतो व्रजे रामस्य चिप्तचित्तस्य माधुर्यै वृजियोषिताम् ते शैमद्भागते महाप्राले पारंशां शयितायां तु संस्कन्दे उत्तरार्धे बलदेव विजये यमुनाकर्षणं नाम पञ्चषष्टितमोऽध्यायः